अथ गीतामाहात्म्यं गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान् पदमवाप्नोति भयशोकादिवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्भसि संसारमलनाशनं गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या पद्मनाभस्य मुखपद्माद्विनिसृताः भारतामृतसर्वस्वं। विष्णोर्वक्त्राद्विनिःसृतं गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गावो दुग्धा गोपालनन्दनः पार्थो वत्ससुदीर्भोक्ता दुग्धं गीतामृतं महत। एकं शास्त्रं देवकीपुत्रगीतम् एको देवो देवकी पुत्रयेव, एको मन्त्रस्तस्य नामानि कर्माप्येकं तस्य देवस्य सेवा